अथ षोडशोऽध्यायः पुनश्च उत्तरभारते विश्रमार्थं गतस्वामी स्वामी पुनश्चापि हिमालयं प्रत्यायात् स कार्येण कलकत्तां किन्तु सत्वरम् प्लेग् इत्याख्यमहामार्या बहवस्तत्र पीडिताः रोगिणां सेवनस्यार्थे प्रत्यायात सपत्तनम् साहाय्येन मठाङ्गानां तथैवाण्यानुकम्पिनम् उपकारं रुजार्तानां विधातुं तेन वाञ्चितम् धनं कुतो वा लभ्येत तदर्थं प्रश्न केनचिच्च सतीर्थेन कृतस्वामी तदावदत् मठनिर्माणकार्यार्था भूमिः क्रिस्तानि काचन क्रियतां विक्रयस्तस्य यज्ञावस्य कथा भवे सन्न्यासिनो वयं सर्वे सदा सज्जा भवेम निद्रां विधातुं वृक्षाधो भिक्षया जीवितुं तथा अस्माक नेत्रयोरग्ने निषहाय जना यदा यसन्ते किं वयं सर्वे चिन्तयेमठं प्रति परं तु नैव देवा देवं विधाशिते दुरिद्रताडकार्यार्थे कश्चित्तस्मै धनं ददौ जनदुःखं लघु कर्तुं तीव्रयत्नं चकारसन् श्लाघातस्य कृता सर्वै अतस्मात् कारणाद्वृशम् वेदान्तस्य प्रचारस्तु कथं प्रायोगिकेतले जनक्षेमायजायेत तेनैवं प्रकटीकृतं पाश्चात्यशिष्यसहितं गतः स्वामी ततः परं देशाटनं पुनश्चापि कर्तुमुत्तरभारते पौहारिबाबा गुड्विणीति मारुषीयोर्ज्वं दयोह। मृत्युर्वार्ता तमत्यन्तम् आकुलीकृतवत्यहो गतो मे दक्षिणो हस्त इत्येवं विललापस गुड्मिन् वर्यस्य मरणं प्रति तेन शान्तं विश्रम्यतां चेति शेषवाकेन शो लिखत कवितां वेदना पर्वं प्रियशिष्यं शुकं स्मरन् अल्मोडां स जगामादौ काश्मीरं तदनन्तरं यत्प्रदेशो भवत्येव स्वर्गो भूमिरस्थितो ध्रुवं यत्रा मध्ये ददादासी स्वस्य सर्वदा उपदेशान् तिष्ठेष्ठान् अध्यात्मविषये बहु करोति स्म स काश्मीरे यदा पर्यटनं तदा एक सम्भ्रमितुं वाञ्छतच्चित्ते बहु सोऽभवत् निर्लक्ष्यमटनं कर्तुं तस्य इच्छा पर्यवर्तत एष हि व्यत्ययस्तस्मिन् शिष्यै तस्य लौकिकसान्निध्यम् अन्त्यसीमां यदाप्तमद् इयं प्रवणता चापि मन्दं मन्दम् अवर्धत इस्लामाबाद् इत्याख्ये सले शिष्यजनैः सह यदासीत् स्वामिवर्य स निदेक्षां काञ्चिदम् अब्रवीत् गच्छेदम् अम् अमरनाथं सतं तीर्थाटनविधेन हि तत्रत्यशिवलिङ्गस्य दर्शनं साधयेदपि कुर्यान् निवेदिता तस्य सः यात्रां स उक्तवान् हिन्दूनां तीर्थयात्राया ज्ञानमेवं लभेत तीर्थकाणाम् अनेकेषां भागो भूत्वा गतौ च तौ सहसा स्वामिनः किञ्चिदभवत् परिवर्तनम् निर्गम्यतीर्थयत्रायै तीव्रव्रतान् स आचरत् ध्यानमेकान्तता भक्ष्यं सर्वं तदनुसार्य पत्थां पन्था आपकत्कम् आपत्करस्थूलशिलासिंहसंहती दिघ्ना नित्यादिकान् सर्वान् सम्मुखीकृतवान् स च अन्ततो यात्रिकव्यूह आप्नुवन् हिमकन्दरं प्राविसत्कन्दरं स्वामी शिवभावप्रचोदितः कोऽपि न मातृधारी सभस्माद्भृतकलेवरः भक्तिभावप्रकर्षेण तस्य वक्रं समुज्ज्वलम् शिवस्य हैमबिम्बस्य पुरप्रणतमांस च बहुसङ्ख्याककण्ठेभ्यः स्तुतिगीतं समुद्गतं विवेकानन्दवर्यस्तु बोधहीन इवाभवत् तत्क्षणे तेन संलब्धं परमेश्वरदर्शनम् स्वेच्छामृत्यु वरं नीलकण्ठाश्च प्राप्तवानपि धमन्यस्वामिनः सर्वाः खण्डाश्चूर्णीचूर्णिता इव तदीयवामननिर्लोकितं घनशोणितम् तस्य हृदं हृदविस्तृतं पश्चात्पूर्वस्तुतिमवापन एतेन नालियस्तस्य विषेणादि सोऽर्णभून् शिवस्य रूपमेवाहं दृष्टवानिति निश्चितम् एतावत्सुन्दरं तद्वन् उक्ते जनकं तथा अद्य यावदहं नैव दृष्टवानिति सोऽवदत् पश्चादनेकदिवशान्तलीयाधरियुग्मके अवर्ततशिवस्यैव नामधेवं निरन्तरम् ततः परं स्वामिवर्यकाश्मीरं प्रतियातवान् दिनेषु तेषु तेनेष्टं ध्यानमेकाकितामपि तद्देशस्य महाराजो बहुमानपुरसरं स्वामिवर्यस्य सत्कारं वैभवेन समाचरत् अस्मिन् कालवधौ काले हृदयान्तरे कालीमातारमुद्यस्य भक्तिभावो व्यवर्धत सा दिव्यमाता भवती वस्तुतो विश्वरूपिणी विना संशयमित्येवं कृतं तेन निरूपणम् स्वामिवर्य स्वयं यस्यां दिशायां समलोकत शोर्णभूत्तत्र सर्वत्र जगन्मातुरुपस्थितम् ध्यानं स्वामी समारेभे काली मातरं मुद्दिशन् तदीयरोद्ररूपं स निजचित्ते विभावयत् दर्शनं तेन संलब्धं तद्रूपस्य क्षणादपि अन्विष्टवान् सम्भ्रान्तो धान्ते पत्रं च लेखनीम् कालीमातेति नाम्ना स काव्यमेकं निलेख च स्वामिनः प्रतिभा तत्र व्यक्तरूपेण दृश्यते ततः परं स्वामिवर्यः मातरं प्रति सम्भाषणं करोति स्म स्वशिष्यै स सर्वदा भीत्करत्वस्य पूजाया फलरूपेण लभ्यते नित्या विमोचनं तद्वत् प्राप्यते नित्यताश्यपि अनिमृत्यु कुरु ध्यानं करालत्वं तु पूजय माता भवति ब्रह्मेति सर्वदापि विचिन्तय आशीर्वादो भवत्येव तस्याः सापोऽपि तत्त्वतः तु भवेन्नूनं श्मशानमिति मन्यताम् यत्र भस्मी भवेदीक्षा स्वार्थचिन्तामदादिकं तत्रैव केवलं माता समायास्यति निश्चितम् एवंविधानि वाक्यानि प्रोक्तानि स्वामिना यदा पाश्चात्यशिष्या कम्पिता वात्यया यथा शुभं च सुन्दरं भद्रं तत्तदेव विलोकितम् जगदीश्वरश्रेष्ठ्यां तैर्भयं वाता न हि एकाकी सन् पुनश्चापि स्वामिवर्यप्रयातवान् प्रसितं मन्दिरं क्षीर भवानी यत्र देवतां ध्यानं च प्रार्थनं तीव्रं स्वामिना मन्दरे कृतं यथा सामान्यसन्न्यासी शास्त्रोक्तविधिना चरे दर्शनं तेन संलब्धं येन विज्ञापितशयन् सम्पूर्णम् अभवत् तस्य कार्यमस्मिन् धरातले एकदा गुरुणा प्रोक्तं नरेण स्वस्य तनुं त्यजेल् स्वेच्छया निजकर्तव्यं पूरितं भुवने यदा पुनः श्रीनगरं स्वामे यदा प्रत्यागतस्तदा पूर्णतो नेव नवमर्त्यस इति शिष्यै विभावितम् एकाकी सनस भूयोऽपि गतवान् कारणान्तरं व्यतिरच नदीतीरे दीर्घकालमितस्ततः